मुद्गलपुराणं कण्डं वन् वक्रतुण्डचरितम् अध्यायं नैन्टीन् अङ्गिरामुद्गलसंवादः श्रीगणेशाय नमः सूत उवाच देवदूतव च श्रुत्वा मुद्गलस्तमधा ब्रवीदशृणुशौनकमाहात्म्यं मुनेस्तस्य सुयोगिनः मुद्गल उवाच देवदूतमया सर्वत्वयोक्तं बुद्धिपूर्वकं श्रुतं पुनः पप्रच्छामि तन्मे वदमहामदे दोषैस्त्रिभिविहीनं तं कं लोकं वदमे प्रभो मनस्तापविहीनाश्च मोदन्ते यत्र मानवाः सूत उवाच मुद्गलस्य वच श्रुत्वा देवदूत उवाचः लोकं च तमहं तुभ्यं कथयामि सविस्तरं देवदूत उवाच निष्कामकर्मणा विप्रब्रह्मलोकप्रलभ्यते वैकुण्ठशिवलोकश्च सौरःशाक्तो जनेन च तत्रापि दोषयुक्तत्वं वरुतदे मुनिसत्तमब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षदे देवदूतमुखादिग्धं श्रुत्वा वै मुद्गलो मुनिः तम्पप्रच्च पुनः साधुर्भक्तिनम्रात्मकन्धरः मुद्गल उवाच कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वदः देवदूत उवाच कर्मभूमिरियं ब्रह्मन्नत्र वैलभ्यते जनैः धर्मार्थकाममोक्षादिब्रह्मभूयं न संशयः श्रुत्वा तस्य वश्चो रम्यमुद्गलस्तमुवाचः गच्छदूदनमस्तुभ्यं स्वर्गं प्रदिनयाम्यहम् हृदि सन्तापसंयुक्तं पुनः पात्रभयात्मकं स्वर्गं नेच्छामि भो विद्वन्ब्रह्म तत्साधयाम्यहं देवदूत उवाचेदमुद्गलं मुनिसत्तमं भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनन्दसि स्वर्गे शाकस्य नैवास्ति नरस्य वदमां मुने उग्रैस्तपोभिर्धनैश्च यज्ञैस्वर्गश्च लभ्यते नानापुण्यादिकं कृत्वा सत्कर्मादि सुसाधनैः इच्छन्ति मनुजा स्वर्गं महासौख्यप्रदं परं सत्स्वर्गश्च त्वया प्राप्तस्तपसोघ्रैः सुसाधनैः नेच्छसि त्वमहामूढज्ञानहीनोऽसि मे मदं देवदूदं वदन्तं तं तदा पुनरिदं वचः मुद्गलस्नेहसंयुक्तप्रत्युवाजः सन्निव मुद्गल उवाच किं मां मोकयसि प्राज्ञहोऽयं बन्धनात्मकः देहसौख्यकरस्वर्गो मुक्तितो न बुधैः स्मृतः तत्रापिहृदि सन्तापो वर्धते तापत्रय तापत्रयसमायोक्तं विद्वान् नेच्छति कर्हिषिद गच्छत्वं च महाभागबृहस्पतिपुरोगमम् इन्द्रं प्रणामं कथय नागदो मुनिरित्यपि यवमुक्त्वा नमस्कृत्य अग्नेश्च गतवान् शालां गतो दूतो यथा गतम् मयापि स्वाश्रमे तत्र स्थितम् मनसि विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते किं प्रमाणं भवेत् साधनीयं मया कथम् पूर्णभावमविज्ञायभ्रान्तोकं नात्र नात्रसंशयः अधः संशयनाशार्थं गमिष्यामि महामुनिं योगिश्रेष्ठैरङ्गिरसंवन्ध्यं वेदज्ञमुत्तमं शब्दब्रह्मणि निष्णादं परे ब्रह्मणि तन्मयम् अस्माकमूलपुरुषं साक्षात् ब्रह्मशरीरकम् इति निश्चितवांस्तत्र गदोऽहं मुनिसन्निधौ आश्रमोऽस्य मया दृष्टसर्वभूताभयप्रदः नातपो न च शीतत्वं न क्रोधकामसम्भवः न तत्र समकालयुधो बभौ नावृष्टिर्नादिवृष्टिश्च ह्यकाले मरणं न न ग्रफादिकृता पीडा तत्र रक्षोभयं न च सर्वशान्तिप्रदः पूर्णस्तापसानां हितावहः विस्मितेन सुपुण्येन प्रविष्टो भाग्ययो गदः तत्र नानामुनीनां च वत्सा परमशोभनाः मया दृष्टा महाभागवेदघोषनिनादिताः होत्रा अग्निहोत्रादिभिर्युक्ता नानापक्षी निनादिताः वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः नानासरोवराण्येव नाना नानापक्षी वृतान्येव सुधारूपजलानि वै सुनिर्मलपयांस्येव मकरादियुतानि च कमलैकुमुदैर्नानाशोभमानानि षट्पदैः सिंहव्याघ्रमृगनागा गजा गावश्च मूषिकाः निर्वैराप्राणिनस्तत्र निवसन्ति प्रजापते एवं दृष्ट्वा महाभाग आश्रमं हर्षसं पश्यन् पुनश्च ह्यभवं विस्मितो निचचेदसी तं वैकुशासनस्थं च साक्षात् सूर्यमिवा परं तेजसा दीप्यमानं त्वपश्यमङ्गिरसं मुनिं सिद्धैर्नानाविद्धैश्चैव योगीभिर्मुनिभिर्वृदं शिष्येभ्यो ब्रह्मविद्यां तां कथयन्तं यथार्थतः दण्डवत्तं प्रणम्यादौ भक्तिभावयुधो भवं प्राञ्चलिप्रयतो भूत्वा संस्थितो मुनिसन्निधौ तव गोत्र भवं स्वामिन्मुद्गलं मुनिसत्तम दर्शनार्थं समायादं विद्धि मां ब्रह्मदायक मदीयं वदनं श्रुत्वा प्रसन्नप्राह मां मुनिः तिष्ठात्र मम सन्निधौ अविघ्नभावयुक्तेन तपस्तप्तं त्वया तेनमे तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमामुदं तत्र स्थितो भवं दक्षसन्निधौ तस्य धीमदः कस्मिंश्चिद्दिवसे तत्र लब्ध्वावसरमुत्तमम् पृष्टो मया महायोगी शृण्वत्सुज मुनिष्वपि ज्ञातुमिच्छामि भो स्वामिन्वद मां करुणानिधे अस्माकं त्वं गदिक्षात् सर्वेषां चैव भक्तिदः सुद उवाच वचनमुद्गलस्याभिश्रुत्वा दं पुनरब्रवीद अङ्गिरा भगवान् योगी प्रहसंस्थं प्रहर्षयन् अंगिरा उवाच मह्यं पृच्छसि किं ताद तद्ब्रूहित्वं महाद्युदे भावदो मन्त्रकर्ता त्वं पुराणाचार्य एव च मुद्गल उवाच कथितं ब्रह्मवेदेषु नानाभावसमन्वितं किं प्रमाणं वेदितव्यं ब्रह्म भूयेप्सुभिप्रभो अङ्गिरा उवाच शृणुपुत्र प्रवक्ष्यामि वेदान्तै यत्प्रभाषितं क्रमेण ब्रह्मलाभार्थं नाना ब्रह्मनिरूपणम् अन्नं ब्रह्मेदि यत् प्रोक्तं तत्रोपाधिसमागतः अन्नरूपो महातेजा अन्नकोशमयं ततः प्राणो ब्रह्मेदि यत् प्रोक्तं प्राणकोशप्रकाशकं मनो ब्रह्मेदिजानीहि मनकोशमयं तथा विज्ञानं ब्रह्मचोक्तं विज्ञानकोशप्रधारकम् आनन्दो ब्रह्मसमदानन्दकोशप्रभासकम् चैतन्यं ब्रह्म यत् प्रोक्तं महाकारणधारकं बिन्दुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने चिद्ब्रह्मेदि समाख्यातं सोहं मात्रात्मकं मदम् बोधो ब्रह्मेदि वेदेषु स्वत उत्थानवेदकं साङ्ख्यं ब्रह्मेदि यत् प्रोक्तं विदेहाधारकं सुत कर्म ज्ञाने तु वेदे च कथिते तदात्मके समं ब्रह्मेदि जानीहि कथितं नन्दनात्मकम् अव्यक्तं सहजं ब्रह्म ज्ञातव्यं शक्तिब्रह्मेदि वेदेषु ह्यसद्रूपप्रकाशकं सूर्यो ब्रह्मेदि यत्प्रोक्तमात्मरूपं प्रकीर्तितं विष्णुर्ब्रह्मेदि यत् प्रोक्तमुभयात्मकधारकं शिवो ब्रह्मेदि शास्त्रेषु निर्मोहस्य प्रकाशकं स्वानन्दो ब्रह्मवेदे च संयोगमयमुत्तमम् निर्वृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं परम् एवं नानाप्रकारैश्च वेदातौ च प्रकथ्यते मुनिभिर्ब्रह्मवादज्ञैस्सर्वं तद्भ्यं प्रमाणदः बृहत्यधो ब्रह्म यदि यद्ब्रह्मश्रुतिवाक्यतः तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा अनाध्यात्मचिदाध्यार्यद्युक्तम् ब्रह्म प्रपथ्यते तदेवोपाधियुक्तम् वैयोगिभिः सुविचारितम् ब्रह्मेदि ब्रह्मविज्ञेयम् तच्च योगेन लभ्यते तदर्थम् मदनम् सर्वम् कर्मज्ञानादिकस्य च तदेव ब्रह्मप्रत्यक्षम् ब्रह्मणस्पदिवाचकम् ब्रह्मणां ब्रह्मविख्यातं भेदस्मृतिसुभाषितं बृंहत्यधो बृंह यदि गणशब्दप्रकीर्तितः समूहे गणधातुश्च कविभिः कदितो भवेद बाह्यान्तराधिकानां च समूहो गण उच्यते दे। तत्राभेदेन योगेन प्राप्यते योगिभिः परः अन्नानां बहवो भेदा बाह्यान्तरविभावदः तदेव गणवाच्यं च ज्ञादव्यं विविधैः सदा इत्यादयो गणस्तस्यानन्दाब्रह्मप्रवाचकाः तेषां स्वामी गणेशानः एव ब्रह्मणस्पतिः तं भजस्व महाभागब्रह्मभूयं जगीक्षसि तस्यावतारदेहायं ज्ञानादिब्रह्मसञ्ज्ञिताः ॐ तत्सदितिः श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्ममुद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ओम्